ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 16 श्राद्धकल्पे दानप्रशंसा बृहस्पतिरुवाच अतः प्रवक्ष्यामि दानानि च फलानि च तारणं सर्वभूतानां स्वर्गमार्गसुखावहम् लोके श्रेष्ठतमं सर्वमात्मनश्चैव यत्प्रियं सर्वं, सर्वं पितॄणां दातव्यं तेषा मे वाज्ञयार्थिना जम्बूनदमयं दिव्यं विमानं सूर्यसन्निभं दिव्याप्सरोऽभिः सम्पूर्णमन्नदो लभदे क्षयम् सव्यञ्जनं तु यो दद्या दहदं श्राद्धकर्मणि आयुः प्राकाश्यमैश्वर्यं रूपं च लभदे शुभं यज्ञोपवीदं यो दद्या श्राद्धकाले तु यज्ञविद पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम् प्लुदं विप्रेषु यो दद्याच्छ्राद्धकाले कमण्डलुं मधुक्षीराज दधिभिर्दादारमुपतिष्ठते चक्राविद्धं च यो दद्याच्छ्राद्धकाले कमण्डलुं धेनुं सलभदे दिव्यां स्थूलपूर्णे च यो दद्यात्पादुके श्राद्धकर्मणि शोभनं लभते यानं पादयोत्सुखमेधते व्यजनं तालवृन्तं च दत्त्वा विप्राय सत्कृतं प्राप्नुयात् सर्वपुष्पाणि सुगन्धीनि मृदूनि श्राद्धे ह्युपानहौ ब्राह्मणेभ्यः सदा बुधः दिव्यं सलभते यानं वाजीयोक्तं नवं तथा श्राद्धेच्छत्रं तु यो दद्यात् तथा प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति शरणं रत्नसम्पूर्णं शशय्याभोजनम्बुधः श्राद्धे दत्वा यदिभ्यू नाकृष्ठे महीय सुक्ता वैधुर्यसासी रिवधनी चाहना चा। दिव्यां प्रयुतान्यर्बुद चा। सुमहद्व्योमगं पुण्यं सर्वकामसमन्वितं चन्द्रसूर्यनिभं दिव्यं विमानं लभदेक्षयम् अप्सरोभिः परिवृतं कामगं सुमनोजवं वसेत्सधु विमानाग्रे स्तूयमानः समन्ततः दिव्यैः पुष्पैश्चितश्चाकुर्दानानां परमं बुधाः सुस्लक्ष्माणि सुवर्णानि श्राद्धे पात्राणि दापयेत् दा। प्रशास्तमुपतिष्ठन्ति भक्ष्यं सौभाग्यमेव तिला क्षुस्त श्राद्धे जेभ्य संप्रय्छति मित्री लोके स्त्रीसु सौभाग्यमे चपात्र तैजस दध्याजा श्राद्धोजन पात्र काम से चन से च राजन व्पी यो द्राद्धकमु कामकाश्य धनमेच धेनु श्राद्धे दृष्टि कुम्भापदोहनीम् गावस्तमुपतिष्ठन्दिनरं पुष्टिस्तथैव च दद्याद्यशिशिरे चाग्निं बहुकाष्ठं प्रयत्नदः कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं तपदे नरः इन्धनानि तु यो शिशिरागमे नित्यं जयदि संग्रामे श्रिया जुष्टस्तु जायते सुरभ्रीणि च माल्यानि गन्धवन्ति तथैव च पूजयित्वादुपात्रेभ्य श्राद्धे सत्कृत्य दापयेद् दा। गन्धमाल्यं महात्मानं सुखानि विविधानि च दातारमुपतिष्ठन्ति युवत्यश्च पतिव्रताः शयनाः सनयानानि भूमयो वाहनानि च श्राद्धेष्वेदानि यो दध्यादश्वमेधफलं लभेत श्राद्धकाले गुणवधिविप्रे इष्टद्रव्यं च यो दद्या स्मृतिं मेधां च विन्दति सर्पिः पूर्णानि पात्राणि श्राद्धे सत्कृत्यदापयेत् कुम्भोपदोहृष्टीनां बह्वीनां फलमश्नुते श्राद्धे यथेप्सितं पुण्डरीकफलं लभेद वनं पुष्पफलोपेदं दत्त्वा गोस्सवमश्नुते कूपारामदडागानिक्षेत्रगोष्ठगृहाणि च दत्त्वा मोदन्ति ते स्वर्गे नित्यमाचन्द्रतारकम् स्वास्तीर्णं शयनं दत्त्वा श्राद्धे रत्नविभूषितं पितरस्तस्य तुष्यन्ति स्वर्गलोकं समश्नुते अस्मिल्लोके च सम्पन्नं स्यन्तनं च सुवाहनैः अष्टाभिपूज्यते चात्र धनधान्यैश्च चा वर्धते पर्णकौशेयपट्टोर्णे तथा प्रावारकम्बलौ अजिनं काञ्चनं पट्टं प्रवेणीं मृगलोमघं दद्यादेदानि विप्राणां भोजयित्वा यथा विधि प्राप्नोति श्रद्धानु वाजपयम बहु भारा सुच पुत्र भृत्या कि लोके ठीभूता लोक चास्म कौशेय क्षौमका दुकूलं गहनं तथा श्राद्धे चैदानियो इदानीं यो दद्यात् कामानाप्नोत्यनुत्तमान् अलक्ष्मीं नाशयन्त्येदे तमः सूर्योदयो यथा भ्राजते यविमानाग्रे नक्षत्रेष्वचन्द्रमाः वासो वासोहि सर्वदैवत्ये सर्वदेवैरभिष्टुतम् वस्त्राभावे क्रियानास्ति यत्र आनतपांसि च तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः तानि सर्वाण्यवाप्नोदि श्राद्धे दत्वादु मानवः नित्यशाद्धे दुयो दद्यात् प्रयतस्तत्परायणः सर्वकामानवाप्नोति राज्यं स्वगेत्तथैव च सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते भक्ष्यजातं तु सुकृतं स्वस्तिखाद्यं सशर्करं कृसरमधुसर्पिश्च पयःपायसमेव स्निग्धप्रायाश्च यो दध्यादग्निष्टोम फलं लभेद दधि गव्यमसंसृष्टं भक्ष्यान्नाविधांस्तथा दत्वा न शोचदे श्राद्धे वर्षासु चमखासु च कृतेन भोजयेद्विप्रान्कृतं भूमौ समुत्सृजेद छायां हस्तिनश्चैव दत्त्वा श्राद्धेन शोचते ओदनं पायसं सर्पिर्मधुमूलफलानि च भक्ष्यांश्च विविधान् दत्वा च मोदते शर्करा क्षीरसंयोगदा पृथुका नित्यमक्षयाः स्यातु संवत्सरं प्रीदिशाकैर्मांसरसेन च सक्तुलाजास्तथा पूभाक् कुल्माशाव्यञ्जनैः श्राद्धेष्वेदानि यो दद्यात् पद्मं स लभते निधिं नवसस्यानि यो दद्याश्राते सत्कृत्य यत्नदः भक्ष्यभोज्यानि पेयानि शोष्यलेङ्यवराणि च भोजनाग्रासनं दत्वा अतिथिभ्य कृताञ्जलिः सर्वयत्नक्रदूनां हि फलं प्राप्नोत्यनुत्तमं क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षते सव्यञ्जनम् तथा स्निग्धं भक्र्या सत्कृत्य यत्नदः तरुणादित्यसङ्काशं विमानं हंसवाहनम् अन्नदोलभते नित्यं कन्याकोडीस्तथैव च अन्नदानात् परं दानं नान्यत् किञ्चित्तु विद्यते अन्नाद्भुधानि जायन्ते जीवन्ति प्रभवन्ति च जीवदानात् परं दानं नान्यत् विद्यते अन्ना लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् अन्नं प्रजापतिः साक्षात्तेन सर्वमिदं पदं तस्मादन्नसमं दानं न भूतं न भविष्यति यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु यो नरः प्रतिश्रयं च यो देवास्तं सम्प्रति दिव्यातिध्यै सहस्रशः सर्वाण्येदानि यो दद्यात् पृथिव्या मेकराड् भवेद् भदेद दानानि परमो धर्म सत्कृत्य पूजितः त्रैलोक्यस्याधिपत्यं हि दानेनैव ध्रुवं स्थितम् अराजालभते राज्यमधनश्चोत्तमं धनं क्षीणायुर्लभदे चायुः पितृभक्तः सदा नरः इति श्रीब्रह्माण्डे मध्य भगे तृतीय उपोद श्राद्धकल्पे दानप्रशंसानाम प्रशंसा नाम